शैलशृङ्गेषु रम्येषु देवतायतनेषु च मृगपक्षिविभुष्टेषु रमणीयेषु सर्वदा कृत्वा च परमं रूपं सर्वाभरणभूषिता सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवं तथैव वनदुर्गेषु पुष्पितद्रुमवल्लिषु सरसुरमणीयेषु पद्मोत्पलयुतेषु च नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च सुतीर्थवनतोयासु तथा च काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु हिमवद्गिरिकुञ्जेषु गुहासु विविधासु च प्रफुल्लशतपत्रेषु सरस्वमलवारिषु सागरस्य प्रदेशेषु मणिहेमचितेषु च पल्वलेषु चरम्येषु महाशालवनेषु च देवारण्येषु पुण्येषु तथा पर्वतसानुषु गुह्यकानां निवासेषु तापसायतनेषु च सर्वर्तुफलरम्येषु मानसेषु सरस्सु च बिभ्रती परमं रूपं रमयामास रमयती तथा भीमं, तत्र तत्र भीम त्र पुत्रं, वजज्ञ महाबलं, विरूपाक्षं महावक्त्रं, शुकर्ण विभीषणं। भीमनादं सुतां रोष्ठं तीक्ष्णदंष्ट्रं महाबलं महेश्वासं महावीर्यं महासत्वं महाभुजं महाजवं महाकायं महामायमरिन्दमं दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् अमानुषं मानुषजम् भीमवेगं महाबलं यः पिशाचानतीत्यान्यान् बभूवातीव राक्षसान् बालोऽपि यौवनं प्राप्तो मानुषेषु विशाम्पते सर्वास्त्रेषु परं वीरः प्रकर्षमगमद् बलि